सत्त अनस्वन्ता सत्पर्मा महे मे गावाचे तिष्ठोऽसूरो मघो नाः श्रीविष्णाग्ने दशभिः सहस्रैर्वैशानरत्र्यारुणश्चिकेताो मे सता च सताच च गोना हरीचयुक्ता सुधुरा दधाति ी सानरसृष्ठो तो मावृधानोऽग्नेयच्छत्यरुणाय शर्म देवाते अग्ने सुमतिम् च का नो न भिष्ठाय न मन्त्रसदस्योः यो मे गिरस्तु विजातस्य पूर्वेर्युक्तेनाभित्यारुणो गृह्णाति यो मयिति प्रभोचत्यस्वमेधाय सूरजे ददधृजासनिम् यते मेधामृतायते यस्य मा पुरुषा सदनुधर्षयन् तु क्षणाः अश्वमेधस्य दानाः सोमाजिपत्यादिरः जी इन्द्राग्नितदान्यश्वमेधे सुवीर्यम् क्षत्रम् धारगतम् बृहद्दिपि सूर्यमिवाजनम् समिद्धो अग्निर्देविरस्रे स्वत्यङ्गुरुदमुर्विया विभाजि ये दिप्राची विश्ववानोऽवाविषाघृताजि अविध्यमानो अमृतस्य राजसि हविष्कृन्तम् सरसे स्वस्तने संसधत्ते द्रविरम् जमिन्नस्याधिथ्यमग्ने च धत्तत्पुरः आग्ने समहते सौभागाय तवद्युम्नान्युत्तमानी सन्तु सञ्जसत्यम् सुजममाग्रेणश्वशत्रु यतामभिनिष्टा महांसि समिद्धस्य प्रमाहतोज्ञे वन्दे तवश्रियम् ोऽवासि समध्वरेष्विध्यसे समिद्धोऽनागुतदेवान्यक्षिष्वध्वर त्वम् हि हंजवालसि आयुहो दादुपश्यताग्निम् प्रयत्यध्वरे वृणीध्वम् हव्यवाहनम् त्रर्यमा मनुषो देवता तात्रीयोचनाधिव्याधारयन्त अर्चम् दित्त्वा मरुतः पूतदक्षास्तमेवषा ऋषीरिन्द्राशिधीराः अनियदीम् मरुतो मन्दसा सुतस्य आलत्तवज्रमभियदहिंहन्नपो जह्वीरसृजत्सर्पबाबु उत ब्रह्माणो मरुतो तदधिम् मनुषे गा अविन्ददहम् नहिम् इन्द्रोऽस्य आद्रोदशीवितरम् विष्कभानश्चिद्धियसे मृगङ्काः जिगर्तिमिन्द्रोः अपजर्दूरा न प्रतिश्वसम् तवपादानवम्हन् अध कृत्वा देवा देवानुविश्वे अददु सोमभेयम् यः सूर्यस्य हरिदः पदम् ते पुरः सतीरुपराजेत शेखः न भजदस्य न पतिम् च भोगान् सागम् वज्रे न मघवामिगृच्छत् गच्छन्तीन्द्रम् मरुतः स्वधश्चेत्रेष्टोभेनव च सा बाधद्या सखासख्ये अवदत्तूजमग्निरस्य कृत्वा महिषा त्रिशतानि श्रीया मनुषस्तरांसि सुदम्बी भद्रहत्याय सोमम् श्रीयच्छ रामहिषा नामघोमा स्त्रीसरांसि मघवाः सोम्यापाः कारण्य विश्वेऽस्वन्तदेवाभरमिन्द्रायदहिम् जघानसहस्यै येन यादम् गृहमिन्द्रो युवानेभिरस्वैः अन्वानोऽत्र सरथम् यया चकुत्सेन देवैरवनोषणम् ान्यच्चक्रमा बृहत्सूर्यस्य कुत्सायान्य भोजादवेगः अनासोदस्योम् रवृणोपधेरणो नावृणम् रुद्रवाचः सोमातस्त्वारोपितेरवद्धरम् धयो वीतधिनाजभिप्रुम् आत्मभिसख्याजक्रेवलम् भक्तिरपि वः सोमास्य न भद्वासः सुदसो मास इन्द्रम् दशग्मासो अभ्रत्यम् चर्कैः द्रव्यम् द्विदूर्वमभिलानावन्दम् चन्दरः समाना अपव्रन् ततो विद्वान् वीर्यामखपञ्च चकर्थनुनव्या गणवः सविष्ठप्रे दुदाते विदेषुब्रवाम वाजवीर्येण वज्रम् गणभो जष्वान्ने भक्ता विश्यास्ति तस्याः इन्द्रब्रह्म क्रियमाणाजुडस्वयादे सविष्ठनम् या कर्म वस्त्रेव भद्रा सुकृता वसूयोरधन्नधीरस्वपा अदक्षम् अस्य वीरम् को अपश्य इन्द्रम् सुकरधमीयमानम् हरिभ्याम् यो राजा वज्री सुमिच्छन् तो गोगन्धा पुरुभूतभूति पदमस्य सत्सरुग्रणीन् वाचमिच्छन् अमृच्छमन्याम् बुदेव आहुरिन्द्रन्न बुबुधाना देव यम् श्रुते याते कृतायीन्द्रप्रवा भजानि नो युजोषः वेदविद्वान् शृणवच्च विद्वान् महदेशम् अथ वा सर्वसेनः स्थिरम् मनश्च कृषे चादयिम् द्रवेषीदेको युधये भूय सश्चित् अस्मानञ्चिच्छव साद्युतो विलोगवा पूर्वविसृजानाम् परो यत्वम् परम आदरिष्टा परावधिश्रुत्यम् नामविभ्रत् अतश्चिदिन्द्रादभयन्तदेवा विश्वा अपो अजयद्दासपत्नीः तुभ्ये लेते मरुतः सुसेवा अत्यन्तर्कम् सुन्वन् ग्रन्थाः अहिमोहानमपासयानम् प्रमाजाभिर्मालिनम् स खदिन्द्राः पिशो मृदो जलुषादानमिन्मन्नहङ्गवामघवन् सङ्गानः अतत्रा दादस्य नमो चेशिरोजतवर्तयोना वे गातुमिच्छन्हि मामक्रेच्छादीन्दशिरो दासस्य नमो चर्म धायन् अस्मानम् चित्सर्या अम्बर्तमानाम् प्रशग्रे वरोदरसीमरुद्भ्यः त्रियो हि दासः यूधादिचक्रे जिह्माकरन्न भला अस्य सेनाः अन्तर्ह्यख्य दुहे अस्य धेने अथोपत्रयेद्युधयेतस्यमिन्द्राः समत्र कापोऽभितो न वन्तेः वत्सैर्वियूता यदा सन् सन्ता इन्द्रो असृजदस्य सागैर्यदीम् सोमा सूषूतामन्दन् यदीम् सोमाधूरो रमेदृषमस्रदेषु पुरन्दर्याम् इन्द्रो अस्य पुनर्गवाम ददातु श्रियानाम् भद्रमिदम् ऋषवा अग्ने अग्रङ्गवाम् चत्वारि ददा दशसहस्रा ऋणञ्जयस्य प्रजातामघानि प्रत्यग्रवेष्म नृदयमस्य नृणाम् सुफेद सम्माप सृजन्त्यस्तङ्गवाम् सहस्रै ऋषमासो अग्ने दीरा इन्द्र मम मन्दसृतासोक्तो परितज्ञाया औच्छत्रिपरितज्ञायाम् निरञ्जे राजनिरुषमानाम् जी रघुरज्यमानो बभ्रश्चत्वारिसहस्रा चतुस्सहस्रम् गव्यस्य वश्व प्रत्यग्रवेष्म ऋषवेष्वद्मे घर्मश्चित्तप्त प्रभृते य आसीदयस्व यस्तम् वादामभिप्राः इन्द्रो रथाय प्रपदम् कृणोद्विमध्यस्थान् मघवा वा जयन्तम् यूथेव पशोभ्यूनोति गोपाष्टो जातिप्रथमशिषा सन् आप्रद्रवहरिभो वा विवेत्पि सङ्गराते अभिनः स च स्वहि त्वदिन्द्रमस्योः अन्यतस्य मेनाञ्शिजनीवतश्च कर्त उद्य सह सह सहाजनि चोदय सुदुघा भव्रे अन्तर्विद्योतिषासम्भवृत्तमो वः अनाभस्तेरथवस्वायतक्षङ्कष्टा वज्रम् पुरुहो दद्युमन्तम् ब्रह्माण इन्द्रम् महयम् तो अर्कैराधयन्नः देहम् दवावो वृषेयत्ते वृषाणो ो ये परयो रथा इन्द्रेताभ्यरन्तरस्यूरे पूर्वाणि करणानि वोचम् प्रणोत नामघपण्या जगर्थ शक्ति योजद्विभरा रोदसी बुभे नवो मन वेदालोचित्राः नु ते कराणन्दस्मभिप्राहि नो जो माजा सुक्ष्णस्य जिक्वरी माया गृभ्राग्रभित्वम् गन्नपदस्योङ्ग्रेशः वे दुर्वसामय सुन्द्र उग्रमाया तमवाहोहगुत्संहयद्वारा इन्द्रागुत्सावहामानारथेना वा, वा मत्या अभिकर्णे वहन्तु निःश्रीमध्यो धमधो निषधस्तान् मघो नो आहृतो वारदस्तमांसि वादस्य युक्तान् सुलिरश्चिदस्वान्कविश्चिदेशो अजगन्न स्युः विशे ते अत्र मरुतः सखा जगेन्द्रब्रह्मानि सूरश्चिद्रथम् परीज्ञायाम् पूर्वम् नरदुपरुञ्जुजुवांसम् गरच्छक्रमेण स्रीणाति पुरोदधत् सनिष्यति कृतुम् आयञ्जनाभिलक्षे च गावेन्दायम् सुरसोममिच्छन् पदङ्ग्रावापवेदिम् प्रिया ते यस्य धीरवद्भजवस्तरन्ति ये चाकरन्त चाकरन्तनू ते मत्ता अमृतमो ते अम्भारि यद्योङ्कृततेषु धेक्ष्यो योजनेषु येषु ते स्याम महान्तश्रियोवधानम् प्रबूधपर्वतस्य वज्रिन्हिग्रप्रयूतम् सयानम् जघन्वाङिन्द्रतवीषे मधत्ताः यस्य जन्म हलो मृगस्य बधर्जघानवीषेभीन्द्राः यये गजितप्रजन्मन्यमान आतस्मादन्योष्टीरेषाम् स्वधयामदन्तम् विगो न पातम् सुबृहम् तमोघा ऋणप्रधर्मादावस्य भावम् वज्रेण वज्रीनिजघन सुष्णम् चन्दीरस्य कृतोमन्मनो विरदितस्य मर्म ृधानम् तन्मधानो वृषभः सुतस्योच्चैरिन्द्रो अपनूर्या जघान्रो महदेधानवा यवधैर्यमिष्ट अप्रतीतम् नमसिंहम् व्रम् मह्यादुग्रहमत्रम् मातापथेन निर्योरावृणम् मृध्रवाच को अस्य शुष्पम् तवीशीम् वरातरे को धनाः भरते अप्रादीतः इमे चेदस्य त्रिजसोऽनुदेवीन्द्रस्य उजसो भियसा जिहाते यास्त्री देवी स्वधीतिर्जिगीत इन्द्रा जगातु सतीमे संयुवधा मे क्षियो नमन्तः एकत्वा सत्त्वा त्रिम्पाचन्यम् जातम् श्रृणोमि यश सञ्जनेषु तम् मे गर्भ्र आसो नट्टम् दोढाव सोर्भमानास इन्द्रम् देवायित्वा मृसुधा यातयन्तम् मघाभिप्रेभ्यो ददा तम् शृणोमि किम् ते गृहते सखा योजये त्वायामि ददुः कामामिन्द्रा भाद्रम् नापि ो हरिः ओ मही महे तपसे देध्येथा तपसे अदौ जाने यो अस्मै सुमतिम् वाचादौ सुतो जने समर्जस्विचेत इन्द्रभियदानो अके हरे या यत्थमघमो ब्रह्मजो अभिप्राय सिजनान् न तेत इन्द्राभ्या अस्म दृष्ट्वा युग्धासो अब्रह्मदाय सन् तिष्ठमधिकम् वज्रहस्ता रस्मिन् पुरु यत्त इन्द्रयम् दुक्षागवे जगर्थोर्वरा सुयुध्यन् लक्ष्ये सूर्यागचितो समत्सु दासस्य नामाचिते वयम् देत इन्द्रजे च नः श्रद्धो जज्ञानायाश्चरसाः आस्माञ्जगम्यादयुष्पथत्वाभगोलहव्यप्रभृतेषु चारोः वृक्षेऽण्यमिन्दरत्वे योजो नानी च कृतमानोर्तः स नयेम् वसवानो रयन्ताप्रार्यस्तोषे तु विमघस्य दानम् एवान इन्द्रोदिभिरवबाहि गृणतः सूरकारूण उद त्वदम् ददो बाजसाधोऽपिशुरस्य चारो उदत्ते मा पौरुगुत्सस्य सूरे स्रसस्यो विरणिनोरराणाम् तु मादधस्ये राजो अस्य गैरिक्षितस्य क्रतोभेन्दुषस्ते उदत्ये मारुता स्वस्य सो नाः हस्रामेच्छालो ददानालोकभ्योर्चत् उदत्येवा ध्वन्यस्य दुष्टा लक्ष्मण्यस्य सुरजो ददानाः बह्मराजः संवरणस्य ऋषेर्वजम् न गावत् प्रजाता विद्मन् अजाततत्रुमजराश्वत्यनु स्वधामीता दस्मीयते सुनोत नव च ब्रह्म वाहते पुरुष् प्रतनम् दधातन आय सोमेन चरमपि प्रदामन्दतमघवामो अन्धसा यदीनाय हन्तसहस्रभृत्यस्मे धुदाय उदीमम् शृणोति भवति द्युवाङ्गः अवापसक्रस्ततनुष्ठीमोहलिबलो सुब्रह्मणः यस्यापाधिरङ्गस्य मातरङ्गस्य शक्रो भ्रातरङ्गाचारीशते वेदीध्वस्य प्रजाताय सलो न किल्पीषादीशते वस्व आकलः न पञ्चभिर्दशभिर्वक्षालभन्नासंवदाशयते पुष्य काचन निरादे ीनिराजति गोमादिश्वस्य च मितापि भीषणो यथा वसन्नायतिः समीपे भोजनम् मुषे पिता सुषे फलति सूररम्बसु दुर्गे धनध्रीयते विश्व कुरुजनो अस्य न विषमचुक्रुधत् संयज्जनोः सुतनोः विश्वसर्धसापवेदिन्दो मखभागोषु सुभ्रिषु ऋन्यमकृतन्प्रवेपण्युदीम् गव्यम् सत्वा सत्त्वाभिर्धुनीः सहस्रसाभाग्यैवेणे रेदत्रीमग्न उपवान् केतुमर्यः तस्मापः संयदप्यीभयम् तस्मिन् क्षत्रममावत्तेडवस्तु यस्ते साधिष्टो बस इन्द्रकृष्टमाभर अस्मभ्यम् दर्शनी सखंसस्लम्बाजेषु दुष्टरम् यदिन्द्र ते तदस्रो यच्छू रसन्ति चद्वा पञ्चक्षिति नाम वस्तत्सु नाभर आ ते वोभरे जम् मृषम् दमस्य होमहे वृढाजोर आभूभिरिन्द्रे जिरे विष्णीरः स्वक्षत्रन्दे घृढन्मनः सत्राहमिन्द्रपौंस्य ममित्रयन्द्रमद्रिवः सर्वकथा चक्रतो निजास्पते त्वामिद्वत्रहन्तभजनासो वृत्तपरिषिषः मुक्ताम् पूर्वेषु पूर्वम् भवन्तरम् पुरो यावा न मातुषु स या वा नन्दने धने वा जयन्तमबादम् इन्द्रे हि नोरथा महापुरम् ध्या वयम् स विष्टवार्यम् दिवि श्रवो दधीमहि दिवि स्तोमम् मनामहे सागामनिन्द्रो यो वसूञ्चिके दातुम् रामनोरीनाम् धर्मचरो देहनो हैवसो हसो मोलपर्वतस्य पृष्ठे अननुद्वाराजम् नर्मो न हेन्द्रम् घेर्धर्मादे पुरुहोदविश्वे चक्रन्नवृत्तम् पुरुहोदवेपे मनोः भिया मे अमदेवा जाद जादािन्वस्तो वोन्मधवन्वसुः ेन ग्रामेता त इन्द्रे यमातुम् बृहदाः प्रसव्येन नखमञ्जम् श्रीराजः प्रदक्षिणी धरिवो मा विवे नः वृणात्वा वृषानम् वर्ध सुषभ्याम् ौ वाजिनो वाजिनेवान् स्वतैः सज मानापदिष्टा यो ने समस्मै क्षिवयो नमन्ताम् सुरजाय मरुतो सम्भारणाय दे सूर्यस्यायुह्वानो घृतपृष्टस्वन्ताः तस्मा वृद्राय इन्द्राय सुनवामेत्याह र्युक्तग्रा वा सुतसोः ग्रावाः यस्य शिरम् वदन्त्युम् राजा यते यस्मिन् तीव्रह्मम् पिबि गोचरकालम् आसत्व नैरजिहन्ति वृद्राम् च दीक्षिते सुभगो नाम पुष्यन् क्षेमे अभियोगे भवाद्युभे वृदौ सञ्जति सञ्जाति प्रियः सूर्ये प्रियो अग्नाभावाति इन्द्रायशुरसोदत् पुरोष्ट इन्द्रराधासो बिभीरादिः सक्रतो अथ नो विश्वदर्शने द्युम्ना सुक्षत्रमम्भयात् यदी समिष्टदधिरे अप्रथे दीर्घस्रुतमम् हिरण्यवर्णदुष्टरम् सुषमा सोजेते अद्यो मेघना चेतसापाः उभा देवाभविष्टे दिवश्चग्मश्च राजतः उतो नो अस्य कस्यचिद्दक्षस्य अस्मभ्यम् ब्रह्म माभरस्मभ्यम् रमणस्य से नूत आभिरभिष्टिभिस्तवसर्मतक्रतो इन्द्रस्यामसु गोपा शूरस्यामासु गोपाः इलिन्द्रचित्रमेघनास्थित्वादा तमद्रिवः राधस्तन्ना विधद्वसौ भाभर जन्मान्या देवरे जवीन्द्रक्षन्तर विद्यापदस्य देवयमगोलस्य धावने यत्ते दृश्य प्रध्यमनोऽस्ति श्रुतम् बृहत् तेन दृढाजी त्रिमाजम् दर्शि सातले ठम्ो मघो नाम् राजानन्दर्पणीनाम् िराः आस्मादिकाभिम्ब च मुख्यमिन्द्रायशंसम् तस्मा वागसेगिरो वर्धन्त्यत्र योगिनः शृम्भन्त्यद्रयः विश्वम् सोमम् सोमपतेषाण्डभिर्वृत् लहन्तम ृढा ग्रावा मृषावृढातो मो अयम् सुतः मृषन्नेन्द्रमृढभिर्वृत्रहन्तमृढाद्वा मृढाम्भुभे वज्रञ्चित्राभिरुधिः मृषन्नेन्द्रमृढभिर्वृत्रहन्तमीवज्रीवृढवस्तु रागा चुष्मीराजावृत्रहासो म या स धर्माध्यन्दिने सवने मत्सदिन्द्राः यो यस्वद्भारस्तमसा विध्यतासुरः अक्षेत्र विद्यथा मुग्धो भुवनान्योरधयिन्द्रमाया अवो दिवो वत्ता माया अवाहन् ्रतेन ब्रह्मः मा वसन्तमत्रैरस्य दृग् त्वम् मित्रोऽ सत्यराधास्तौ मेहावतं वरुणश्च ब्रह्मायुयुधानस्य पर्यन् कीरिणा देवान्नमसोपशिक्षन् अत्र सूर्यस्य दिविदक्षुराधात्सर्भाक्षते यम् वै सौर्यम् सर्भरस्तमसा विद्यदा सुरः अत्र व्यस्तमन्द्वृन्द्या अन्ये अशक्नुवन् मित्रा, रुणाम् धायन् निो वा महापार्थिवस्य पादे श्रुतस्य वासदसित्रासीधानो यज्ञाय वाचारो मित्रावरुणोर्यमालेन्द्रुभुक्षा मरुतो जुषन्त नमो नमोभिर्वाजे दधते सुक्तिम् सोमम् रुद्राजमीषे सजोराः आवाम् ज्येष्ठास्विनाभुवध्येवा तस्य पद्मन्रथ्यस्य पुष्टौ उदािवोऽसूराजमन्वम् प्रान् धाम् देवयज्य वेभरध्वम् प्रदक्षिणो दिव्यः कण्वा होता रुजो दिवः सजोरावातो अग्निः पूषाभगप्रभृते विश्वभोजा जा आजिन्न प्रवो रजम् युक्ता युक्तास्वं भरध्वं राजेणेव दधितधिः सुजेमये वैरौषिजस्य होतारे वयेवा मरुतस्तुराणाम् प्रवो बाजुम् रसयुजम् गृणध्वं रजेवम् विप्रम् मर्यालभर्तैः <Sess> पुरन्देर्वस्वीर्णात्रपत्नीराधिसूरैर्प्ररक्तैः उषासानक्ता वहतो विश्वय यज्ञम् धन्यासजोषाधिषणा नमोभिर्वनस्पतीराजेः सुते नस्तने पर्वतास्सन्दस्वैकलभोजेवीरा सदा नो वर्धाण्डः संनर्य अभिष्टौ कृष्णो अस्तोषिभूम्यस्य गर्भम् कृतो न पादमवाम् सुहृति अग्निलेतरीन शोषैः सोतिष्के शोभि कथामये रुद्रियाय ब्रमा भगद्राजेति विदुषे भगाय ौर्वगिरयो वृक्षे साणो दूरभूजाम्बदिर्गिरश्वरवस्वरीयाङ्गिरिरः परिज्वा शृणन्त्वा पुरो न शुभ्रात् परिश्रो बृहाणस्याद्रेः विदाजन्महान्तो देवस्मा वायन्दधानाः वयश्चन सुभ्वायन्त्रमनो यतम् वधस्मै आदेवादिवा नियन्मा पश्चाच्छासुमकार्यवचनम् श्चन्द्राग्रा उदा वर्धन्दामभिरादार्णाः अरेमानिधायवरो द्रेया शक्राया पालुभिश्च श्री तु मातामणिरसानस्मत्सूरिभिः से नमसा सुदानो नेवया मरुतो अच्छोक्तौ प्रसौ मरुतो अच्छोक्तौ मा नोर्बुद्ध्यो रिषेधादस्माकम् भूतुपमाजिमनीः इति जिह्मप्रदायी पशुमत्यै देव सोमनधेमृर्त्यो दे वा देव सोमनधेमृत्यो वः अत्रा शिवाम् तन्वो धाशिवस्याम् चिन्मे निर्विनिर्जग्रसीताो देवासु मतिमूर्धयन्ती विषमस्यामव सहस्रसागोः सानः सुतानुर्मुणयन्ती देवी प्रतिद्रवन्ती श्रीराजगम्याः ैला यूथस्य मालास्मन्नदीभिः दुर्पशीवारुनालु दुर्पसीवाविहद्दिवाभ्योन्वालाप्रभृतस्यायोः शिषप्रनवो ज्यस्य पृष्टेः प्रसन्तमावरु नन्दि मित्रम् भगवति गङ्गो नमस्याः नमाता ृज निःपञ्च श्रीमाचीवेम् ब्रह्म प्रियम् देवै सञ्जलस्यहम् मित्रैवीरामुदत्तेन धृतेन स नामसो निप्रताहितानि चन्द्राणि देवस्य पिता सुन्द्रमनसारे शिगो हृस्ताम् सूरभिर्हरिभस्ताम् स्वस्ति सम्ब्रह्मणा देव हि सञ्जतस्ति सन् देवानाम् सुमत्यानाम् देवो भगस्य पिता राजोऽहम् स इन्द्रो वृत्तस्य सञ्जितोधनाम् ुत पापुरम् धीरवन्तु न अमृतादस्तु रासाः मरुत्वादो अप्रीतस्य जिष्णो रजो यदप्रभ्रवा गृहाणि तदे पूर्वे मघवन्नापरासो न वीर्या अन्नोद न कश्च नापुस्य यत् यः संसारे सुभते सम्भाविः पुसु रागमज्जोः बालम्भिस्समानाहरिष्टा बृहस्वदे भगवान सुवीराः ये अश्वदा बुधभासन्ति योदा एव स्रदा सुभगास्ते शिवाजाः विसर्वानम् गृणि वित्रमे भुञ्जते अभ्रणन्दो न बुक्धैः ्रतान् वृथमेवावृधानान् ब्रह्मद्विषः सूर्याद्यावयस्व यो हा ते रक्षसो देववीतामचक्रेस्पह् स्वमीम् दसमानस्य निन्दात्तुच्छान् कामान् करते सुष्विधानः श्रुन् बालोऽपिश्वस्य क्षयातिभेषजस्य महेसो मनसा च रुद्रम् नवोऽभिर्देवमसूरन्तु पश्य नसो अपसोजे सुहस्ता वृष्टपत्नीर्नद्योभिर्भदष्टाः सरस्वती बृहद्दिवोदरास्य निन्देभरिवस्वन्तु शुभ्राः रसो महेशु शरणाय मेधान्दिरम् भरे नव्यसीम् चाजमाना जहा हनादो हि दुर्भक्षणासुरूपामी नानाग्रेणो लियम् नाहतिस्तनयम् तम् रुवन्तमिनस्पतिम् जनितन्नो नमस्या येन भारम् शब्धो अच्छा शुद्धस्य सूनो यो रन्यो मृतस्याः रामो राजेहेवा स्वस्ति पस्तिवे मन्दलक्षं वरस्वती राजे अस्याः देवोदेव भवो भूदमह्यम् मानो माता देवानि बाहे स्याम समस्वि योरव सानूदेन भुवा सुप्रणीतिगमेव आनो रयम्बाह तमोदवीराणा विश्वान्यमृता सौभागायि ूर्ण्यर्थ अमर्धन्ति कृपा नो यन्तु मध्वा महो राजे मेहति सप्त विप्रोपयोजो भवति आविष्टुती रमाता च पृथिवी अमृधे पिता माता मधुपचाः सुहस्ता भरे भरेण वितसामविष्टा अध्वर्यवश्च कृपाम् सोमधो निवाच मे भरतचारु शुक्राम् होदेवनप्रथम पाह्यस्य देवमधोरहिमादेवदाय दशक्षिपो इन्द्रे बाहू अध्यम् सोमस्य जावितारा सुखस्ताम् सुखवस्तर्गलिष्टाम् दनिश्च लुदु शुक्रबन्धुः ये लक्षाय बृहते मदाय हि रयो अन्वाजीन्द्रेणिः दूतमानः आ नो मही मरमादिम् सजोषाग्नाम् देवीं नमः राज भूजा प्रावन्तः विदुतो न वोत्रमुपसि प्रेषा घर्मो अग्निहृदयन्न साधिहती सन्त माहीर्दोतो नगम् अश्विनाहुवध्यै अजो वा शरथाया समर्वाग्न्धम् निधिम् दुराभिम् कृतव सोनम भुक्तिम् दुरस्याहम् गोष्णमुदो न दीक्षिधराञ्जावाजस्य विनोदान् आनामभिर्भरुतो वक्षि विस्वाना रूपे भिर्जातवेदोपानः यज्ञङ्गिराज ऋत विश्वे गन्धमरुतो विश्वभूति आरो दिवृहः पर्व दादा सरस्वती देवीयुरा घृताी समान् नृणोतु आवेश समील दृष्टम् बृहन्तम् बृहस्पतिं सेवाम् ्यवर्णमरुषम् स प्रेम आशन्न विश्वेभिर्गन्तो नः नासा नोषधीरमृद्वस्तधातो शङ्गोऋषभो वयोधाः मादृष्पदेव रमे शुक्र आयोर्मस्तिलासो अग्मन् सुमसा रातहौ जाश्रम् व्रजन्ध्यायभोजभासे बृहद्वयो बृहते तुभ्य पद्दे धियाजुरो विश्वासस्य नन्दा ेवो रेव सुभवो भूतमह्यम् मानो माता प्रीथिमेधुधात् गुरो देवा निबाधे स्याम समश्विूतनेन वयो भुवा सुप्रणीति गमेम आणो रयम्बाह तमोद वीराणा विश्वान्यमृता